श्रीमद्भागवत् महापुराणं दसंस्कन्ध चतुर्दशोऽध्यायः शेषोकुवाच इत्यभ्यष्टो यभूमानं त्रिपरिक्रम्यपादयोः नत्वाभीष्टं जगद्धाता सुधाम प्रत्यपद्यत ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागुवस्थितान् वस्तान् पुलनुमालिन्ये यथा पूर्वशुखं सुखम् एकस्मिन्नपि यातेऽब्दे प्राणे सं चान्तरात्मनः कृष्णमाया हता राजन् क्षणार्धं मे निरेर्भकाः किं किं न विस्मरन्तीह मायामोहितचेत यन्मोहितं जगत्सर्वम् अभिक्ष्णं विस्मृतात्मकम् उचोश्च श्रृदः कृष्णं स्वागतं ते तिरङ्घसां नैकोऽप्यभोजिकवलयेहीतसाद्भुज्यतां ततो हसन्शिशि केशोऽभ्यवधृस्सं सहार्भकै दसिंश्चरमाजुगरं निवर्तत वनाद्रजं बर्ह्य प्रसूननवधातु विचेत्रन्ताङ्गः प्रोद्दाममेलुदलश्रिङ्गरवोऽसवाढ्य वस्सान् गृहन्ननुगीतपवित्रकीर्ति गोपीजगुस्सदृशी प्रविवेशगोष्ठम् अद्यानेन महाव्यालो यशोदानन्दसूनूनां हतो विताभयं चास्मादती बाला व्रजे जगुः राजवाच ब्रह्मन् परोद्भवे कृष्णे यानप्रेमा कथं भवेत् यो भूतपूर्वस्तुकेषु सोद्भवे स्वपि कथ्यताम् शेषो उवाच सर्वेषामपि भूतानां नृप् स्वात्मैव वल्लभ इतरेपत्यवित्ताद्या तद्वल्लभतयैव हि तजराजेन्द्रत यथा स्नेह स्वस्वकात्मनिदेहिनां न तथा ममतालम्बे पुत्रविद्रगृहादिषु देहात्मवादिनां पुंसाम् अपि राजन्यसत्तम यथा देहप्रियतम तथा न्ये च तम् देहोऽपि ममता भक् चेत्तर्षर्षौनं नात्मवत्यः यज्ञेर्यपि देहेऽस्मिन् जीविता सा बलीयसे प्रियतम स्वात्मा सर्वेषामपि देहिनाम् तदर्थमेव सकलं जगदेतच्चराचरम् कृष्णमेन मवेहि त्वाम् आत्मानम् अखिलात्मनां जगद्धिताय सोऽप्यत्र देहि वा माययां वस्तुतो जानतामत्र कृष्णं स्ना स्नोचरिष्णु च धवं भगवद्रूपम् अखिलं नान्यन् वस्तुविह सर्वेषामपि वस्तूनां भावार्थो भवति सित तस्यापि भगवान् कृष्णः किमतद्वस्तुरूप्यतां समासिता ये पदपल्लवप्लवं महत्पदं पुण्यशो मुरारे भवाम्बुधिर्वस्तु पदं परं पदं पदं पदं यद्विपदां न तेषाम् एतत् ते सर्वमाख्यातं यत् प्रेष्ठोऽहमिह त्वया यत्कौमारे हरिकृतं तो गण्डे परिकीर्तितम् एतत्सृद्धे चरितं मुरारेरघार्जनं साद्बलजेमनं च जक्तेतरद् रूपमजोर्वभीष्टवं शृङ्गण्डेति नरोऽखिलासाम् एवं विहारैः कौमारैकौमारं जहतु व्रजे नीलायने सेतुबन्धैर्मर्कटोद्पलवनादिभिः ते श्रीमद्भागवते महापुराणे पारमहंस्यां चयितायां दसंस्कन्धे पर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः